अथ श्रीगीतामाहात्म्यम् श्रीगणेशाय नमः श्रीराधारमणाय नमः धरोवाच भगवन् परमेशान् भक्तिरौयभिचारिणि प्रारब्धं भुज्यमानस्य कथं भवतिहे हे प्रभो श्रीविष्णुरुवाच प्रारब्धं भुज्यमानो हि गीताभ्यासरतः सदा समुक्तः स सुखी लोके कर्मणा नोपलिप्यते महापापाति पापानि गीता ध्यानं करोति चेत् क्वचित् स्पर्शं न कुर्वन्ति नलिनीदलम् गीतायाः पुस्तकं यत्र यत्र पाठः प्रवर्तते तत्र सर्वाणि तीर्थानि प्रयागादीनि तत्र सर्वे देवाश्च ऋषयः योगिनः पन्नगाश्च गोपाला गोपिकावापि नारदादवपाशदो सहायो जायते शीघ्रं यत्र गीता प्रवर्तते यत्र गीता विचारश्च पठनं पाठनं श्रुतं तत्राहं निश्चितं पृथ्वी निवसामि सदैव गीताश्रयेऽहं तिष्ठामि गीता, गीता मे चोत्तमं दृगं गीताज्ञानमुपाश्रित्य त्रीन्लोकान् पालया गीता, त्रीन्लो गीता मे परमाविद्या ब्रह्मरूपान् संशयः अर्धमात्राक्षरा स्वानिर्वाच्यपदात्मिका चिदानन्देन कृष्णेन प्रोक्ता स्वमुखतोऽर्जुनं वेदत्रयीपरानन्दा तत्त्वार्थज्ञानसंयुता ज्ञानसिद्धिं स ततो याति परम् पदम् पाठे समग्रे सम्पूर्णे ततोर्धम् पाठमाचरेत् तदा गोदानजं पुण्यम् लभते नात्र संशयः त्रिभागम् पठमानस्तु गन्दास्नानफलं लभेत् षडं संजपमानस्तु सोमयागफलं लभेत् एकाध्यायं तु यो नित्यं पठते भक्तिसंयुतः रुद्रलोकमवाप्नोति गणो भूत्वा वसे चिरम् अध्यायं श्लोकपादम् नित्यं यः पठति नरः स याति नरतां यावत् मन्वन्तरं वसुन्धरी गीताया श्लोकदशकं सप्तपञ्चचतुष्टयं द्वौ त्रीनेकं तदर्धं वा श्लोकानां यः पठेन्नरः चन्द्रलोकमवाप्नोति वर्षाणामयुतं ध्रुवं गीतापाठसमायुक्तः मृतोमानुषतां व्रजेत् गीताभ्यासं पुनः लभते मुक्तिमुत्तमां गीतेत्युच्चारसंयुक्तः म्रियमाणो गतिं लभेत् गीतार्थश्रवणासक्तो महापापयुतोऽपि वा वैकुण्ठं समवाप्नोति विष्णुना सह मोदते गीतार्थं ध्यायति नित्यं कृत्वा कर्माणि भूरिशः जीवन्मुक्तः स देहान्ते परमं पदम् गीतामाश्रित्य बहवः भूभुजो जनकादयः निर्धूतकल्मशालोके गीतायाताः परं पदम् गीतायाः पठनं कृत्वा माहात्म्यं नैव यः वृथा पाठो भवेत् तस्य श्रमये बह्युदाहृतः एतं माहात्म्यसंयुक्तं गीताभ्यासं करोति यः स तत्फलमवाप्नोति दुर्लभां गतिमाप्नुयात् सूत उवाच माहात्म्यमेतत् गीताया मया प्रोक्तं सनातनं गीतान्ते च पठेद्यस्तु यदुक्तं तत्फलं लभेत। इति श्रीवाराहपुराणे श्रीगीतामाहात्म्यं सम्पूर्णम्